मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं पत्य ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनम् श्रीगणेशाय नमः आस्तीक उवाच बाल्यात्प्रभृति शैवोऽहं पिधस्तं त्यज्य विघ्नपं कथं भजामि विप्रेष अतः शैवं वदस्व मां जरत्कारुरुवाच त्यक्त्वा गणेशं शान्धिस्थो न कोऽपि सुतसम्भवेद गणेशानां शम्भुमुख्याध्यात्वा शान्तियुता बभुः शिवविष्णुवादिभावेषु ब्रह्मशब्दः प्रकीर्तितः एकांशेन गणेशस्य वेदेषु वेदवादिभिः तेषु योगं समाराभ्य शान्तिं प्राप्ता सुयोगिनः सा शान्तिस्वल्पभावाख्या न मुख्या योगिनां मदे शान्तिभ्यः शान्तितः गणेशो ब्रह्मणस्पतिः तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि गणेशो मायया युक्तः पञ्चधा दा परिकीर्तितः पञ्चभेदविहीनश्च निर्मायिक उदाहृतः मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् तयोर्योगे गणेशानः शान्तिरूपो न संशयः अदो गणेशरूपाद्वै शिवो भिन्नः प्रकीर्तितः त्यजा ज्ञानभवं दुःखमभेदं गणपं भज अत्र संवादं शङ्करस्य च उपमन्योर्महाभाग सर्वशान्तिप्रदायकं महापाशुपदो विप्र उपमन्योर्महायशाः सहजं शङ्करं ब्रह्म ज्ञात्वा खेदयुधो भवद जगामशङ्करं विप्रस्तं प्रणम्य पुपूजः स्तुत्वा नम्य जगादाध कृताञ्जलिर्महामुनिः उपमन्युरुवाच सहजं शाङ्करं ब्रह्म स्वाधीनं दोषसंयुधं स्वाधीनं च पराधीनं नैव ब्रह्मणि विद्यते ब्रह्मभूयकरं योगं वदशैव सदाशिव येनाहं शिवतां प्राप्य शान्दिस्तस्तं भजे सदा यदि तस्य वच श्रुत्वा सदा शिवः उवाच महाभागं योगं गाणेश संज्ञकम् शिव उवाच यकदा काशी संस्तम् मामुवाच मुनिसत्तमः जैगीश्रव्यो यथा त्वं वै तथा पाशुपदाग्रणीः जैगीश्रव्य उवाच शिवः सहस संज्ञस्तो ब्रह्मणि सहजं कथम् अध परं योगम् वद मे शान्तिदायकम् विश्वनाथ उवाच गणेशं भजभावेन तदा शान्तिमवाप्स्यसि ढुण्डयित्वा मया योगात् हृदो ढुण्डिर्हृदि स्थितः मम श्रुत्वा वचोरम्यं दुःखितो मामुवाचः जैगीषव्यो वचो विप्र तदहं कथयामि ते जैीषव्य उवाच त्यक्त्वा विश्वेश्वरं देवं भजाम्यन्यं न विश्वप अशान्तिशान्दिदो वापि शिवो मे परमागतिः विश्वनाथ उवाच असच्छक्तिश्च सद्भानुसमो हरिरहं शिवः अव्यक्तश्च चतुर्णां वै योगे स्वानन्द उच्यदे सयेव गणनाधो गणनाथोऽयं मया पञ्चधा बभौ मायाहीनो ह्ययोगाख्यः पञ्चभिर्वर्जितो मदः तयोर्योगे गणाधीशः शान्तितः पूर्णवाचकः अतोऽयं ब्रह्मणां नाथो वयं ब्रह्मप्रवाचकाः केलनाद्गणनाथोऽयमस्मद्रूपधरो भवद कलया तत्र किं भिन्नं मन्यसे मुनिसत्तमा भेदबुद्धिं परित्यज्य भज विघ्नेशमादराद न भिन्न शङ्करस्तस्मात्तद्रूपं तं विभावय यवमुक्त्वा ददा तस्मै मन्त्रमेकाक्षरं ततः सविधिं गणनाधस्य तदोध्यानप्रसिद्धये साधयित्वा यथा न्यायं योगं गाणे श संज्ञम् समारेभे ब्राह्मणस्पत्यसंज्ञकं कृत्वा यत्नम् मुदा युक्तो द्विजान्नत्वा विसृज्य सः संस्थितस्तत्र वरदायकः तं दृष्ट्वा सहसोद्धाय प्रणनाम पुपूजः पुनः प्रणम्यतुष्टाव यजुस्तोत्रेण विघ्नपं योगशान्दिं प्रदत्त्वा सौ जैगीश्रव्याय धीमते आचार्यतां तु योगस्य स्वयमन्तर्दधे विभुः तदो गुरुं शिवं सोपि ढुण्डिराजं तु दैवतं गणपत्यस्वभावेन भजत् काशी स्थितो मुनिः अतस्त्वं गणनाधं तं भज शान्तिप्रसिद्धये शान्धिभ्यः शान्तितः प्रोक्तः सर्वेषां योगधारकः जरत्कारुरुवाच एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परं विधियुक्तं गणेशस्य स्वशिष्यायोपमन्यवे तं प्रणम्यययौ सोऽपि मन्त्रध्यानपरो भवत इष्टिं गणेशस्य शान्तिरूपो बभूवः गणराज्यस्तु तमपि ययौ भक्तं महामुनिं दत्त्वा शान्तिं स्तुतस्तेनान्तर्दधे ब्रह्मनायकः अदस्त्वं संशयं त्यक्त्वा भज विघ्नपतिं सुद व्यभिचारो न देभावी शान्तियुक्तो भविष्यसि सुत उवाच एवमुक्त्वा ददौ तस्मै स्वमन्त्रं तु षडक्षरं विधियुक्तं गणेशस्यास्तीकाय मुनिसत्तमः आस्ति कः साधयामास ध्यात्वा हृदिगजाननम् युष्टिं गणेशस्य शान्तियुक्तो बभूवः जगामः उपदिश्य गणेशानां शान्तियुक्तां चकारताम् अतो गणपतिं नित्यमभजत् प्रीतिसंयुधः अन्ते गाणेश्वरे धाम्नि ब्रह्मैव स बभूवः एतत्ते कथितं सर्वं ब्राह्मणस्पत्ययज्ञजम् माहात्म्यं गाणपत्यानां प्रियं संक्षेपदो मया यशृणादि नरो भक्त्या पठते तस्य सिद्धिदं भविष्यदिनसन्देहो भुक्तिमुक्तिप्रदायकं ब्राह्मणस्पत्ययज्ञस्थं पुण्यं स लभते परम् अन्ते स्वानन्दको भूत्वा ब्रह्मभूतो भवेन्नरः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते ब्राह्मणस्पद्यमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ओम्